श्री श्रीगणेशाय श्री गौरे शङ्कराभ्यां नमः अथ श्री शिव शिवमहापुराणे विद्येश्वरसंहितायां परस्परमणो विरुध्ये क्षिप्त पाशुपतास्व भीतानाम् अमराणां कैलासयात्रा नेश्वर उवाच पुरा कदाचित् योगेन्द्र विष्णुर्वीषधरासूत्या स्वानुगैरपि सम्भृतः यदृच्छयागत तत्र ब्रह्मा ब्रह्म पिताम्बरः अपृच्छत् पुण्डरी काक्षं शयनं सर्वसुन्दरम् कष्टं पुरुषवचे चेत् दुष्टा मामपि दृप्तवत् उत्थिष्टवत् समां पश्य व नाथं विहागतम् आगतं, आगतं गुरुमहाराज्यं द्रुष्टायु द्रुप्तवत्सरे द्रोहिण तस्य मूढस्य प्रायश्चित्तं विधीयते इति श्रुत्वा चक्रुद्धो बहिः शान्तव दाचरन् स्वस्ति ते स्वागतं वत्स तिष्ठ पीठमितो विश किमुते व्याघ्रवत् विभाति विचेक्षणम् प्रमोवाच वत्सविष्णु महामानम् आगतं कालवेगतः पितामहश्च जगतः पाता च तव वत्सः विष्णुवाच मत्तं जगदिदम् वत्स मनुष्ये त्वं विचोरवत् मन्नाभि नन्दिकेश्वर उवाच एवं विवदल स्तोत्र मन्नाभि कमला जात पुत्र सम्भाषते वृथा नन्दिकेश्वर उवाच एवं भी विवदलो तत्र मुग्धयो रजयोत्तर अहमेवो वरो न तम् अहं प्रभु अहं परस्परं हन्तुकाम्भो चक्रतु समरोद्यमम् यु युधा ते मरो वीरो हंसपक्षीन्द्रवाहनौ वैरञ्च वैष्णवा चैवीरेतरायमानगतये तावद् विमानगतय सर्वा समरं तं महाद्भुतम् क्षिपन्त पुष्पवर्षाणि पश्यन्त स्वैरमम्बरे सुपर्णे वाहनस्तत्र क्रुद्धो वै ब्रह्म वक्षसि मुमोच बाणान् सह अस्तां च विविधान् बहून् मुमोचायथ विधिक्रुद्ध विष्णोरूरसि तदाश्चर्यम् विधि स्पष्टं तयोः समरगोचरम् समीक्ष देवसगणः शशंसुर्भमाकुलात् ततो विष्णुसंक्रुद्ध श्व व्यतन कश्चित् बाहेश्वराश्रम मतिमान् चन्द्रे ब्रह्मणोपरि ततो ब्रह्म भृशं कम्पयन् विश्वमेव पाशुपतं घोरम् सन्दधे विष्णु वक्षसि ततस्त दुःखितं व्योम्नि तपनायुतसन्निधम् सहस्रमुखमत्युग्रम् चण्ड वात भयङ्करम् अस्रद्वयं विदं तत्र ब्रह्म इत्थं बभूव समरम् परस्परम् ततो देवे गणा सर्वे विषन्ना दृशमाकुलात् ऊचु परस्परं तात राज्ये क्षोभे यथा द्विधा सृष्टिस्थितिश्च संहारे तिरुभावोऽप्यनुग्रह यस्मात् प्रवर्तते तस्मै ब्रह्मणे चिशूलिने अशक्यमन्य अशक्यमन्ने यदनुग्रहं विना धृणक्षयोऽप्यत्र यदृच्छय क्वचित् इति देवा भयं कृत्वा विचिन्वन्त शिवक्षयं जग्मो कैलासशिखरम् यत्रा ते चन्द्रशेखरः धृत्वैवं मम राहृष्ट पदं तत् पारमेश्वरम् प्रणय प्रणवाकारं प्रविष्टा तत्र सद्मनिः तेऽपि तत्र मध्ये मण्डपे मणिविष्टरे विराजमानम् उपय ददृशो देवपुङ्गवम् सव्योत्तरे तरपदम् तदर्हीते कराम्बुजम् स्वगणैः सर्वतो जुष्टम् सर्वलक्षणलक्षितम् वीच्यमानं विशोजश्चजै सीजनैः तीव्रभावनै शस्यमानं सदा वेदे अनुगृह्णन्तमीश्वरं दृष्ट्वैवमीशमराः सन्तोषसुलीलेक्षणाः तण्डवे दूरतो वत् नमश्चक्रूर् महागणः स नवे च पथि देवान् समीपे च भयद्गणैः अथ देवो देव अवोच तथा वचनम् मधुमङ्गलम् अति तामवेक्ष्य पते समीपे च भयगणै अथ सन्धारयन् देवान् देवो देवशिखामणि देव वोच तथा गम्भीरं पचनं मधुमङ्गलम् इति श्री शिवमापुराणे प्रथमायां विद्येश्वरसंहितायां देवा नाम नाम कैलासयात्रावध्याय हैीगौरी शंकर